श्रीहरिः श्रीगोविन्ददामोदरस्तोत्रं करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तं वटस्य पत्रस्य पुटेशयानं बालं मुकुन्दं मनसा स्वरामि श्रीकृष्णगोविन्दहरे मुरारे हे नाथ नारायणवासुदेव जिह्वे पभस्वामृतमेतदेव गोविन्ददामोदर माधवेति विक्रेतुकामाखिलगोपकन्यां मुरारिपादार्पितचित्तवृत्ते दध्यादिकम् मोहवसाधवोच गोविन्ददामोदर माधवेती गृहे गृहे गोपवधू कदम् वा सर्वे मिलित्वा समुवाप्ययोगं पुण्यानि नामानि पठन्ति नित्यं गोविन्ददामोदर माधवेती सुखं सयानानि लिये निजेऽपि नामानि विष्णो प्रवदन्ति मरत्याः ते निश्चितं तन्मयतां व्रजन्ती गोविन्ददामोदर माधवेदीं जीवे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि समस्तभक्तार्तिविनाशनानि गोविन्ददामोदर माधवेती सुखावसाने इदमेव सारम् दुःखावसाने इदमेव ज्ञेयं देहावसाने इदमेव जाप्यं गोविन्ददामोदर माधवेति जिवेरसज्ञै मधुरप्रिये त्वं परमं वदामि आवर्णयेथा मधुराक्षराणी गोविन्ददामोदर माधवेती स्वामेव याचे मम देहि समागते दण्डधरे कृतान्ते वक्तव्यमेवं मधुरं सुभक्त्या गोविन्ददामोदर माधवेति श्रीकृष्णराधावर गोकुलेश गोपालगोवर्धननाथविष्णो जीवेप्यस्वामितमेतदेव गोविन्ददामोदर माधवेति गोविन्ददामोदर माधवेति गोविन्ददामोदर माधवेति